भगवद्गीता चाप्टर् सेवेन्टीन् वर्षस् वन् टु टेन् अधसप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठादुकाकृष्णसत्त्वमाहोरजस्तमः श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभाव सात्विकी राजसि चैव तामसि चेतितां शृणु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारदा श्रद्धामयोऽयं पुरुषो यो यश्रद्ध एव सः यजन्दे सात्विका देवान्यक्षरक्षां शिराजसाः प्रेदान् बोधगणांश्चान्ये यजन्दे तामसा जनाः अशास्त्रविहितङ्कोरं तप्यन्दे ये तपो जनाः दम्भागङ्गारसं युक्ता कामरागबलान्विताः कर्षयन्तः शरीरस्थं भूदग्रा मम चेतसः मां शैवान्तः तान् विद्या सुरनिश्चयाम् सर्वस्य त्रिविधो भवति प्रियः तेषां वेदमिमं शृणु आयुसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्य स्निग्धा स्थिरा हृद्या आहारा सात्विकप्रियाः खड्वम्लवणात्युष्णतीक्ष्णरूपक्षविदाहिनः आहाराराजसस्येष्ठा दुःखशोभामयप्रदाः यादयामं ग्रदरसम्पूरिपर्युषितं जयद उच्छिष्टमभि चा मेद्यं भोजनं तामसप्रियम् भगवद्गीता चाप्टर् सेवेन्टीन् वर्षस् लि ट्वेण्टि अफला काङ्क्षिभिर्यज्ञो विधिदृष्टो ययुज्यते यष्टव्य मे वेदिमनःसमाधाय स सात्विकः अभिसन्दाय दुर्बलं दम्भार्थमभि चैवय युज्यते भरतश्रेष्ठतं यज्ञं विद्धिराजसं विधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवं ब्रह्मचर्यमहिं साजशारीरं तपकुच्यदे अनुद्वेतकरं वाक्यं सत्यं प्रियदितंयन् स्वाध्यायाभ्यसनं चैव वाङ्मयं तपकुच्यदे मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः भावसंशुद्धिरित्ये दत्तपो मानसमुच्यते श्रद्धया परया सप्तं तपस्तत्त्रिविधं नरैः अबलाकाङ्क्षिभिर्युक्तैः सात्विकं परिचक्षदे सत्कारमानपूजार्थं भेन चैवय क्रियादेत तदिह प्रोक्तं राजसं चलमध्रुवम् मूढग्राहेणात्मनो यत्पीडया क्रियादेत तपः परस्योत्सादनार्थं वा तत्तामसमुदाहृदम् दातव्यमिति यद्दानं दीयतेऽनुपकारिणे देशे काले च पात्रे जा तद्दानं सात्विकं स्मृतम् <गद्थी दाँ> भगवद्गीता चाप्टर् 17 वर्षस् 21 वन् टु ट्वेण्टि यत्तु प्रत्युपकारार्थं बलमुद्दिश्य वा दीयते च परिक्लिष्टं तद्दानं राजसंस्मृतम् अदेशकाले यद्दानमपात्रेभ्यश्च दीयते असकृतमवज्ञातं तत्तामसमुदाकृतम् ॐ तत्सदिति निर्देशब्रह्मणस्त्रिविदस्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा तस्मादोमित्युदाहृत्य यज्ञदानतपक्रियाः प्रवर्तन्ते विधानोक्ता सदं ब्रह्मवादिनां तदित्यनभिसन्दाय फलं यज्ञतपक्रियाः दानक्रियाश्च विविधा क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते प्रशस्ते कर्मणि तथा सच्छः पार्थयुज्यते यज्ञे तपसि धाने च स्थितिः सदिति कर्म चैव तदर्थीयं सदित्येवाभिधीयते अश्रद्धया हृदं दत्तं तपस्तप्तं कृतञ्जयत् असदित्युच्यते प्रार्थन च तत्प्रत्यनो यह ॐ श्रीमद्भगवद्गीतासु सप्तदशोऽध्यायः